हरि ओं श्रीसीतारामचन्द्राभ्यां नमः अथ श्री श्रीमदध्यात्मरामायणे किष्किन्धाकाण्डे चतुष्टः सर्गः श्रीमहादेव उवाच तत्र वार्षिक दिनानि राघवो लीलया मणिगुवासुसञ्जरन् पक्वफलभोगितो शितो लक्ष्मणेन सहितो वसत् सुखम् वसनुन्नजलपूरितमेघा नन्तरस्तवैद्युतगर्भां वीक्ष्य विस्मयगयूथाहितसुकाञ्चन कक्षां नवघातं समास्वाद्य वृष्ट्य पू मृगद्विज धावन्तः परितो रामम् वीक्ष्य विस्तारिते क्षणः न चलन्ति तदा ध्यान निष्ठा एव मुनीश्वरः रामम् मानुषरूपेण गिरिकानभूमिषु चरन्तं परमात्मानं ज्ञात्वा सिद्धगणा भुवि मृगपक्षी गणा भूत्वा रामम् बेवानुसेवीरे सौमित्री एकदा रामम् एकांदे ध्यान समाधी समाधि विरमे भक्त्या प्रणयाद्विनयान्वितः अब्रवी देवते वाक्यात् पूर्वोक्ता पूर्वोक्ताद् विगत्वा मम अनाद्य विद्या असम्भूत संशयोर्विसंस्थितः इदानीं श्रोतुमिच्छामि क्रियामार्गेण राघवे भवदाराधनं लोके यथा कुर्वन्ति योगिनः इदम्बेव सदा प्राहु योगिनो मुक्तिसाधनम् नारदोऽपि तथा व्यासो ब्रह्म कमलसम्भवः ब्रह्मक्षत्रादिवर्णानाम् आश्रमाणां च मोक्षदम् त्रिशूद्राणां च राजेन्द्र सुलभम् मुक्तिसाधनम् तव भक्ताय मे भ्रात्रे लोकोपकारकम् श्रीराम उवाच मम पूजाविधानस्य नान्तोऽस्ति रघुनन्दन तथापि वक्ष्य संक्षेपात् यथा वेदन पूर्वशः स गृह्योक्त प्रकारेण द्विजतं प्राप्य मानवः प्रकाश गुरोर्मन्त्रं लब्ध्वा मद्भक्तिसंयुतः तेन सन्दर्शितविधि मामेवाराधये सुधि हृदये वा नले वासेत् प्रतिमादौ विभावसौ शालग्रामशिलायां वा पूजयेन् मामतन्द्रितः प्रातस्नानं प्रकुर्वीत् प्रथमम् देहशुद्धये वेदतन्त्रोदितैर्मन्त्रैर्मेपनविधानतः सन्ध्यादि कर्म यन्नित्यम् तत्कुर्याद्विधिना बुध सङ्कल्पमादु कुर्वीत् सिद्ध्यसं कर्मणां सुधी स गुरुं पूजयेद्भक्त्या मद्बुद्ध्या पूजको मम शिलायां स्नपनं कुर्यात् प्रतिमासु प्रमार्जनं प्रसिद्धै गन्धपुष्पाद्यै मत्पूजा सिद्धिदायका अयिको नवृत्त्या मां पूजयेन् यतव्रत प्रतिमादिषु अलङ्कार प्रियोम्बे कुलनन्दन अग्नो यजेत विचार भास्करै तण्डिले यजेत् भक्तेनोपहृतं प्रीत्यै श्रद्धया मम वार्यपि किं पुनर्भक्ष्य भोज्यादि गन्धपुष्पाक्षतादिकं पूजा द्रव्याणि सर्वाणि सम्पाद्य समारभेत् चैला सम्यक सम्यक् आसनम् परिकल्पयेत् तत्रोपविश्य देवस्य सम्मुखे शुद्धमानसं ततो न्यासं प्रकुर्वीत् मातृका बहिरांतरम केशवादी तथा कुर्यात् तत्त्वन्यासं ततः परम् मन्मूर्ति पञ्जरन्यासं मन्त्रन्यासं ततो न्यसेत् तिमारोऽपित कुरिया नित्यम् अचन्द्रितः कलशं स्व पुरो वामे क्षिपेत् पुष्पादिदक्षिणे अर्घ्ये पाद्य पदार्नार्थम् मधुपर्कार्थमेव च तथैव वाचनाथं तु न्यसेत् पात्र चतुष्टयम् ऋत्पद्मे भानुविमले मत्कलां जीवसन्निधां अखिलम् तया व्याप्तं वदीनम् तान्मेवाहयेन् नित्यम् पतिमादिषु मत्कलां पाद्यार्घ्याचमनीयाद्यै स्नानवस्त्रविभूषणे यावत् शक्योपचारैर्वा तर्चयेन् माम मायया विभवे सति कर्पूर कुङ्कुमागरुचन्दने अर्चयन्मन्त्रवन् नित्यम् सुगंध कुसुम शुभ दशावरण पूजा वै जागमोता प्रकार धूपदीप नैवेद्य बहुविस्तरई श्रद्धर नि श्रद्धा अहमीश्वर होम कुरिया प्रयत्न विधि मंत्रकोविद अगत नोक्त मार्गेण कुंडेनागम्य ूयान्मूलमन्त्रेण पुंसुक्ते नाथवा बुध अथवोपासनाग्नो वा चरुणा हवि च तथा तमजाम्बूनदप्राख्यम् तप्तजाम्बूनदप्राख्यम् दिव्या भरणभूषितम् ज्यायेदनमध्यर्थम् होमकाले सदा बुध पाशदेभ्यो होमशेषं समापयेत् ततो जपम् प्रकुर्वीत् ध्यायेन्मां यत मुखवासं च ताम्बूलम् दत्त्वा प्रीति समन्वितः मदर्थे नृत्यगीतानि स्तुतिपाठादिकारयेत् प्रणमये दण्डवद्भूमौ हृदये मां निधाय च शिरस्याधाय मद्दत्तम् प्रसादम् भावनामयम् पाणिभ्याम् मत्पदे मूर्नि गृहीत्वा भक्तिसंयुतः रक्ष मां घोरसंसारात् इत्युक्त्वा प्रणयेत् प्रणम्बेत् सुधि उद्वासयेद् यथा पूर्वम् प्रत्यक् ज्योतिषिसंस्मरन् एवम् उक्तप्रकारेण पूजयेद् विधिवद्यदि इहामुत्र च संसिद्धिं प्राप्नोति मदनुग्रहात् मद्भक्तो यदि माम् एवं पूजा दिने दिने करोति मम सारूप्यम् प्राप्नोत्येव न संचयः इदं रहस्यम् परमं च पावनम् मय्येव साक्षात् कथितम् सनातनम् पश्यजस्रम् यदि वा शृणोति स सर्वपूजाफलभाङ्गय एवम् परात्मा श्रीराम क्रियायोगम् अनुत्तमम् पृष्टे प्राह स्वभक्ताय ेषां चाये महात्मने पुनः प्राकृतवद्रामो मायामालम्ब्य दुःखितः आसीतेति वदन्नैव निद्रां लेभे कथञ्चन एतस्मिन्नन्तरे तत्र किष्किन्धायाम् सुबुद्धिमान हनुमान् प्राह सुग्रीवम् एकान्ते कपिनायकम् हृणुराजन् प्रवक्ष्यामि तवैव हितमुत्तमम् रामेण ते कुतः पूर्वम् उपकारो ह्यनुत्तमः तया मूनं विस्मृत प्रतिभाति मे स्वकृते नियतो वाली वीरस्यै लोक्यसम्मतः राज्ये प्रतिष्ठितोऽसि त्वं तारां प्राप्तोऽसि दुर्लभां स राम पर्वतस्याग्रे रात्र सहैव श्रद्धायन्म एकाग्रम् ईक्षते कार्य गौरवात् सप्तु वा नरभावेन स्त्रीशक्तो नावबुध्यसे करोमीति प्रतिज्ञाय सीताया परिमार्गणम् न करोति कृतज्ञत्वम् हन्यसे वालिवधृतम् हनुमद्वचनं श्रुत्वा सुग्रीवो भयविह्वलः प्रत्युवाच हनुमन्तम् सत्यमेव प्रयोदितम् शीघ्रम् कुरु ममाज्ञान्तम् वानराणाम् तरस्विनाम् सहस्राणि दशेदानीम् प्रेषयशो दिषोदश सप्त दीपगताम् सर्वान् वानरान् आनयन्तु ते पक्षमध्ये समायान्तु सर्वे वानरपुङ्गवहय ये पक्षम् अतिवर्तन्ते ते वध्यामेन संचयः इत्याद्यापि हनुमन्तम् सुग्रीवो गृहमाविश सुग्रीवाज्ञां पुरस्कृत्य हनुमान् मन्त्रि सप्तमः तत्क्षणे प्रेषयामास हरिन्दस्य दिश सु अगणितगुणसत्त्वान् वायुवेगपचारान् वनचरगुणमुख्यान् पर्वताकाररूपान् पवनहितकुमारे प्रेषयामास दूतान् अचिरभसतरात्मानमानादितृप्तान् इति श्रीमद् ध्यात्मरामायणे उमामेश्वरसंवादे किष्किन्दाकाण्डे चतुर्थ स्वर्गे श्रीसीतारामचन्द्रार्पणमस्तु